प्रथमाष्टके तृतीयः प्रश्नः प्रारम्भः संयत्तासन् विजयमुपयन्तः अग्नीशो मयोस्तेजस्विनीस्त भविष्यति यदि न जयेष्यन्तीति हेनाग् क्रामताम् त्या अग्निन्म विभक्तिमविन्दन् ते क्रहाभवन् तत्र यस्यैवम् ्याताम्भागो दैत्या पुनम् जायति अग्नेयपमानाय उत्तर स्यात् यत्पवमानाय तेनाद्यभागः तेन सौम्यः ेवतामुतीत्याहो चैनमेश्वरात् प्रजनम् वाग्निः रजनमेवो वैति कृतसम्भार इत्याहो खलु एवं प्रचलति एषैव वा एषुराधेयति तादृगेव तद् उच्चैः यथा नष्टम् विद्वा प्रायमिति तादृग एव तद् देहादेश दैदी इति सादृशम् यज्ञानाहरन्ता जिपे तेनातिष्ठन्ता अहमनेन यदा इति ते क्रवन् आजि धावामिति तस्मिन् आजिमधावन् बृहस्पदर्जयना यजदा सस्वाद्यक्षत तमिन्द्राब्रवीद मा याजयेति तेनेन्द्रमयाजयम् देवतानाम् पर्ययेत् एष्येन देवायसो सोम वै वाजुपेयः वै सोमं वाजुपेयिदा वाच्ये वेदं गीता भवति हास्यवाजीजायते अन्नम् वै वाजपेयः एवं वेद प्रत्यन्नम् आस्य जायते ब्रह्म वै वाजपेयः एवं वेद आस्य ब्रह्म जायते आग्रे वाजस्य प्रथम एवं वेद प्रतिवाचावीर्यम् एता उद्य प्रायच्छत् वा एता उज्युतयो व्याख्यायन्ते यज्ञस्य सर्वत्वाय देवानाम् निर्भागाय देवावि ब्रह्मणश्चान्नस्य दशमलग् यद्ब्रह्मणः शमलमासीत् सा गाथानादाशिद्धस्य साधुरा तस्माग् मत्तस्य एतस्य वाचो वर्धाः या पृथिव्या याग्नो यादुन्दरे यान्तरिक्षे या वायुया वामदेव्ये या दिव्यादित्येषधीशया बृहस्पतिषु तस्माद्वादिवैराैरेद्यस्य नावार्द तदविक्राह्यस्यावार्द तदविक्राश्यानाम् विग्राह्यत्वश्याविष्यन्ते देवान्येभ्यैरेत्यस्य नावृन्दे तदेवदेन वृन्दे पञ्चविष्यन्ते वृन्दे सर्वा इन्द्रा वन्दे ष्याणाम् तत्सुराः क्रमेणैवास्मान्नान् गृह्णाति ब्रह्मणो वा एतत्तेजसादे सुराग्रहान् गृह्णाति अन्नस्य वा एतच्छमलम् अन्नस्यैवन्ति सोमग्रहाविश्वविश्व स्त्रीसुराः प्रजननाय आत्मानमेव सोमग्रहैः स्पृणोति तस्मात् वाजिपेय्याम् लोके श्रीमसम्भवति वादिपेय्यागृह्यस्य पूर्वे सोमग्रहादृश्यन्ते अपरे सुराग्रहाः सुरामग्रहान् एष वीरमाः तत्सोमः अन्नराः सोमग्रहागुश्च सुराग्रहागुश्च अन्नात्येत्याह अन्नम् विभद्रम् एतच्छत्याह आत्मनैवेन व्यावृत्तिरिच्छिन्नः धादि ब्रह्मवादना वदन्ति आग्नि अथ कस्माद्वाजपे ये सर्वे यज्ञो वृद्ध्यन्त इतित्रम् आरुत्यावृहतस्तोत्रम् यथावन्ता वै यज्ञाम् पुशुभिरवावृन्धे आत्मानमेव स्मृणात्यग्निष्टोमेन प्राणापानाथ्येन वीर्योडशनस्तोत्रेण पाचमधरात्रेणस्तोत्रेण इममेव अन्तरिक्षमुखेनशोऽवात्मनताग्स्वत्यावि सप्तदशप्राजापत्यान् दशो नालभते सप्तदशप्रजापतिः प्रजापते भवन्ति एव प्रजापतिः समृद्धीकृता प्रचल्या एतान् संलभयेत् मरुत एव शमयित्वागादाय एकथा ैद्यम् प्रतिष्ठापयति प्रजापतिरिष्याः सर्वान् वदन्ति इति न्द्रस्य मावृन्धे अतो तस्मिन्नेवो भोलयति अप्सुम् प्रविष्टम् तदनुसुमल्पोलयति यदेव प्रविष्टम् तदेवावृन्धेध्यमुपगच्छति यदप्सुल्पोलयति एध्याने बिना अन्तरोधी आयुर्वा आत्मं बक्पेटजह एतवए नेरदा अग्रश्वमङ्गना अविरे बिना नु यरकि सर्वस्य चित्ति जयः लक् व्यवति पाहाम तपादा सह मनदम महाष्टी मेध्याने बिना अन्तरोधी आयक्ोत्स्य बिना रादि मुदर्शदः कृष्णप्रणाम्रमोदे इष्टदेवोत्तए मान लोकानाभिदेति ऐश्वर्यमविरता या एव नमस्करोति एवम्प्रसवे पृथक्पदनावा जिताः सविदप्रसोद एव ब्रह्म आकाशस्याः प्रसवे पृथक्पदनावा जितावृश्चे मिथ्याः सविप्रसोद एव ब्रह्मश्चन्नागमूरोति तत्पालैरजकनिम्त्रे गुणोहरि अथवा अंग्यजत् तमास्वर्गं लोकमायन्न साक्षादेवैतमास्वर्गं लोकमेति आरेष्टेति प्रत्यवैरथा प्रत्यनैवदशोभिरेति पाजनाभुंसापगायते अन्नं नैवजहन् नन्मेवावृन्धे आजोवर्मनेवेर्थकवाः अकामते तद्वनस्पदीं इन्द्रराजः श्रीशावाकृणस्पतिशोधति कालिन्दभू तस्माः आतन्द्वेश्वरवावावजौतिवर्ति न्द्रन्तिन्ति वा एषा वाग्ेनावृन्धे इन्द्राचम् इत्याहीन्द्रः एव वाचमु इति सप्तदशप्रज्ञा सप्तदश सप्तदशप्रजा स्वर्गमेव लोकयन्ति स्वर्गम् वा एते लोकयन्ति राज्यो धावन्ति ेव अन्नं वैवाचः अन्नमेवावृन्धे यथा लोकं वा एतयन्ति याजिन्धावन्ति सत्तमं नस्तलम् वाज्रं पक्क्येच्छेते मेमेवदेव वाजलं लोकमतीते तं परक्रिया वन्दे एगधा ब्राह्मणं वरदे एकदि एक वेदमाने वीजिन्ददाति देवाभा औषधीश्व वाजनियो ताब्रहस्पद रदगिरि शनिवारान निरवनीता तन्निवरणं निवर्तम् ऐवारस्तुरपादे यनते देवानां परमनं यन्दिवारा तमेनैवास्मान् नाद्यना ब्रह्मनाद्यमूर्न्धे एष देवृन्धे एषो वरुत्सदेशे खलुयम् परिधापयति आजस्यावृद्धि च्छति सप्तदश भवति सप्तदश प्रजापतिः प्रजापतिरात्रीश्चतुरश्रीभवति गोधूम प्रजापतिसमृद्धिः अथवास्मि लोकम् एषमेजमानः यद्योपः सर्वदेवत्यम् वास संवत्सरमेव प्रीणादिवत्सरमेव स्मि प्राणानेव यथा स्थानम् कल्पयित्वा स्वर्गम् लोकमेदि एतावत् प्राणाोकमेति स्वदेवाह स्वर्गमेव लोकमेति अमृता भूमेत्याह अमृतमिवे स्वर्गो लोकः प्रजापते प्रजाभूमेत्याहत्यो वायम् लोकः अस्मादेव इति समहम् एते साक्षादन्नम् यदूषाः साक्षादेवेन अन्नाद्येन समर्थयन्ति पुरस्ता प्रत्यम् पुरस्ताद्यप्रतीचेन मन्नमध्यते शीर्षतोघ्नन्ति शीर्षदाख्यन्नमध्यते दिव्योग्नन्ति दिव्यवास्मा अन्नाद्यमवर्धते ईश्वरो वा एष वाहति हिरण्यमध्यवरोहति अमृतै्यम् अमृतमर्गो लोकः अमृतएसर्गे लोके प्रतिष्ठति शतमानम् भवति सदायुः पुरुषशिरेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति पुष्ट्यैवा एतद्रूपम्संवत्सरस्यान्याम् पुरुषो हस्ताजनमध्यवरोहति जनने प्रतिष्ठति सप्तान्मञ्जुहोति सप्तवान्नानि यावन्त्यैवान्नानि तान् एवावृन्दे सप्तग्राम्यावौषधया सप्तार्ण्याः अन्नस्यान्नस्य जुहोति अन्नस्यान्नस्यावृद्धिद्वादिवे याद्यनवृद्धस्यावृद्धे नभ्युद्धेत सर्वस्य समवदाय जहोति अनवृद्धस्यावृद्धि औदुम्बरेण श्रेण जुहोतिन्नमृदुम्बर भूतेवान्नाद्यस्यावृद्धि देवस्यत्वादुःप्रसव इत्याह सविदुःप्रसोग एव अन्नस्यान्नस्याभिषिञ्जति अन्नस्यान्नस्यावृद्धि पुरस्ताकृती पुरस्ताद्यप्रतीजेन अन्नमध्यते शीर्षतोभिषिञ्चरि शीर्षतो आमुखा जन्मवस्रास्माधाति अग्ने स्वासाम्राज्येनषिञ्जामीत्याह एष वा अग्ने सवः तेनैवेन अभिषिञ्चति इन्द्रस्य स्वासाम्राः जेनाभिषिञ्जामीत्याह इन्द्रियमेवास्मिन् एतेन ददाति बृहस्पते स्वासाम्राः जेनाभिषिञ्जामीत्याह ब्रह्म वै देवानाम् बृहस्पतिः ब्रह्म नैवेन अभिषिञ्जति स्वमग्रहाकृष्ट्या वदानीयानि चतु अम् एव तै लग्रमन्नावन्तम् करोति स्वाग्रहाकृ न वदानीयानि च पादसुभ्यः ेवृन्दे श्रीविष्णवदेव यज्ञो वै विष्णुः पश वर्षिभिः यज्ञ एव पृथुशुक्ति तिष्ठति भवति अन्तमेवैनयदि ेवेदेन गच्छति कृतस्य श्रूयते व्योमस दमित्याह यदा वेवसि यान् भवति व्योमागण्येदमाहो व्योमेवेदेन गच्छति ेतेन गच्छति अपागुणो अपामेवैतेन रसूयते सूर्यरश्मो समावृतव्यत्यागच्छत् तेभ्यो न पुनरदुः ते प्रमयि पुनर्दास्यामः अस्मभ्यमेव पूर्वेभ्यक्रिया दायिनीद्युक्रियते य स्वधान वैत्याः पितरेवाधि सोमपीतमवृन्धेमीयमेव सोमपीतमवृन्धेन्द्रियेण द्वितीयामप्यस्तुते ब्राह्मणम् पुरावारुश्व ैत्याह एवः प्रीणादि तिस्राहुदीर्ज्योदि त्रर्धवः तदूनेव प्रीणादि तूष्णीम्ये क्षणमाददादिवान् प्रीतान् मनुष्यास्राहुदीर्जोति षट्सम्पद्यन्ते षड्वार्धवः भवति सकृतिरः तानेव प्रीणादि प्राणावर्तते कोष्मना व्यापृतवास्ते ओष्म वा गाहि पितरः ब्रह्मवादिना वदन्ति प्राजितेवाप्राचितम् वीरम्भावयम् वीरम्बा ददतिगाय पितरः निर्वदयते उत्तरः सन् य नमो नमो जीवाय नमो पितः पितरोघोरायः हे एतस्मिन् लोके स्थ युष्मागुस्थेनो हेऽस्मिन् लोके मान्देतस्मिन् लोके स्थिन्दा भूयास्तोके राजा पच्च यच्चा पुनरैति यज्ञो वै प्रजापतिः यज्ञेनैव सह पुनरैति न प्रमायो भवति एतश्च प्रजापतिस्वारेन्दर्तिमाक्षीयमानः इति प्रथमाष्टके तृतीयः प्रश्नः